हरि ओम् श्रीगणेशाय नमः अथ श्रीशिवपुराणमात्मसप्तमोऽध्यायः शिवपुराणश्रवणमतीनाम् श्रीविधिनिषेधवक्तृपूजनवर्णनम् शौनक श्री उवाच सुतसुत महाप्राज्ञधन्यत्वम् चैव पुङ्गवे श्रावितेयम् कथास्माकम् अद्भुता च शुभावः पुंसाम् शिवपुराणस्य श्रवणवृत्तिनां मुने सर्वलोक इतार्थाय दय श्रोच नियमं शृणु च भक्त्या पुंसां तेषां च शोनक नियमात् तत्कथां श्रुत्वा निर्विघ्नफलमुत्तमं पुंसां दीक्षाभिनाम् अधिकारोतु कामे रतो दीक्षाग्राह्य च तये मुने ्रह्मचर्यम् अथस्तु पत्रावल्याञ्च भोजनम् तथास्मात् कथा नित्यम् कथावृति अस्मात् पुराणम् सुशक्तिमान् शृणुयाद्भक्तितः शुद्ध पुराणम् चैवत्तमम् घृतपानम् पयःपानम् कृत्वा वा शृणुयात् सुखम् फलाहारेण वा श्रव्यम् एकभुक्तम् एकवारम् हवीशानम् भुञ्ज्यादे तत्कथावृती सुखसाध्यम् यथा स्यात् तत् श्रवणम् कार्यमेव च भोजनम् सुकरम् मन्ये कथासु श्रवणप्रदम् नोपवासो वरश्चेत्सात् कथा च वर्णविघ्नकरोत् गरिष्ठम् द्विदलम् दग्धम् निष्पावां भावदुष्टम् पर्युषितम् जग्ध्वा नित्यम् कथावृती वार्ताकं च कलिन्दम् च प्रचण्डम् तथा कुष्पाण्डं नारिकेलं च मूलं जग्ध्वा कथावृती पलाण्डुं लशुनम् हिङ्ग्वम् गुरुञ्जनम् मादकम् हि चेत् वस्त्वन्यामिषधन्यानि वर्जेद्य कथावती कामादि षड्विकारं च श्रियां च अभिनिन्दनम् पतिव्रता सुधां निन्दां वदेद्य कथावृती हृदसलां न पश्येत् च पतितान्न कथा न वदेद्य कथावृती सत्यं शोच्यं देहां मौनम् आर्जनम् विनयम् तथा औदार्यं मनसश्चैव कुर्यान् नित्यं कथावृति निष्कामश्च सकामश्च निर शुणयात् कथं स कामकाममाप्नोति निष्कामोक्षमाप्नुयात् दरिद्र च क्षयीरोगी पापि निर्भाग्य एव च अनपत्योऽपि पुरुषे शृणुयात् सत्कथाकवन्द्य सप्तै विधायति खर श्रीय सर्वद्गर्भां श्राव्या कथापरा सर्वैस्त्रै श्रवणम् कार्यम् श्रीभिः पुम्भिः च यत्नते एतच्छिव पुराणस्य विधिना च कथामृे एतच्छिव पुराणस्य पारायण दिनानि वै अत्युत्तमानि बोध्यानि कोटियज्ञसमानि च एतेषु विधिना दत्तम् अपि वस्तु हि वरिष्ठेषु तदक्षय्य फलम् भवेत् एवं कृत्वा वृतधिं श्रुत्य वा परमां कथाम् परानन्तयुतः श्रीमान् उद्याप्नम् तथाचरेत् एषदुद्यापनविधि चतुर्दश्या समो मतः कार्यस्तनाद्य च तदुक्ते फलकाङ्क्षिभिः अकिञ्चनेषु भक्तेषु प्रायो नोक्त श्रवणेनैव पूतासे निष्कामाशाम्बवमतः एवं शिवपुराणस्य पारायण मकोत्सवे समाप्ते श्रोतृभिभक्त्या पूजा कार्या प्रयत्नते शिवपूजनवत् सम्यक् पुस्तकस्य पुरोमुने पूजा कार्या सुविधिना वक्तुश्च तदनन्दनम् पुस्तकाच्छादनार्थं हि नवीनं चासनं शुभम् समर्चे दृढं दिव्यम् बन्धनार्थं च सूत्रकम् पुराणार्थं प्रयच्छन्ति ये सूत्रं वचनं न योगिनो ज्ञानसम्पन्ना ते भवन्ति भवे भवे पे दद्यान् हाराणि वस्तूनि विविधानि च पत्र भूषणपात्राणि द्रव्यं बहु आसनार्थं प्रयच्छन्ति पुराणस्य चयेन रः म्बलसि मञ्चम् फलकमेव चेत् स्वर्गलोकम् समासाद्य भुक्त्वा भोगान्यते स्थित्वा ब्रह्मपदे कल्पम् याति चैव पदम् तथे एवम् कृत्वा विधानेन पुस्तकस्य प्रबोजनम् रक्तश्च भुविषादूले महोत्सव पुरस्सरम् साहाय्यार्थम् स्थापितस्य पण्डितस्य प्रबोजनम् कुर्यात्तदनुसारेण किञ्चिदूनम् धनादिभिः समागतेभ्यो विप्रेभ्यो सद्य धन्नं धनादिकम् महोत्सव प्रकर्तव्यो गीशर्वाद्य च नर्तनैः विरक्तश्च भवे श्रोता परे विशेषतः गीतावाच्य शिवे नोक्ता रामचन्द्राय ये गृहस्य भवे श्रोता कर्तव्यत्वेन धीमतः होम शुद्ध्येन अविचार कर्मणस्तस्य शान्तये रुद्रसंवितया होमश्लोकेन वामले गायत्र्या तन्वयत्वा च पुराणस्याश्च तत्त्वतः अथवा मूलमन्त्रेण पञ्चवर्णेन शैवतः ओमाशक्तो बुधो होम्यम् दोषयो पशुमार्थं च न्यूनताधिकताख्ययौ पठय शिवनाम तेन सफलं सर्वं सुफलं नतो नास्त्यधिकं तस्मात् त्रैलोक्ये वस्तु किञ्चन एकादश मितान् विप्रान् भोजये दत्तात्येभ्यो दक्षिणां च व्रतपूर्णत्वसिद्धये शक्तो परत्रयमित स्वर्णेन्द्र सुन्दरम् मनैः सिंहम् विधाय तत्रस्य पुराणस्य शुभाक्षरम् लेखितम् तं, लिखितम् वापि संस्थाप्य विधिनापमानम् सम्पूज्य वहनाद्य च व्युपचारे सुदक्षिणम् वस्त्रभूषणगन्धाद्यै पूजिताय यतात्मने आचार्याय सुधीर्द्यात् शिवसन्तोषहेतवे तेन दानप्रभावेण पुराणस्य सम्प्राप्यानुग्रहम् चैव मुक्तस्य भव वन्दन एव विधाने च श्रीमच्छीव पुराणकम् सम्पूर्णफलदं स्याद्वै भुक्तिमुक्तिप्रलायकम् इति ते कथितं सर्वम् किम्भूय श्रोतुमिच्छति श्रीमच्छिवपुराणस्य महात्म्यम् सर्वकामदम् श्रीमच्छिवपुराणम् तु पुराण तिलकम् स्मृतम् भिव प्रियम् रम्यम् भवरोगनिवारणम् ये जन्म खलु जीवलोके ये वै सदा ध्यानरता शिवस्य वाणी गुणान् स्तौति कथाम् श्रुणोति श्रोत्रद्वयम् ते भवमुत्तरन्ति सकलगुणविमेधै नित्यमस्पष्टरूपम् जगति च बहिरन्तैर्भासमानं महिम् न मनसि च बहिरन्तैर्वाङ्मनोवृत्तिरूपम् परमशिवमनन्तानन्दसान्द्रं प्रपद्ये इति श्रीस्कन्धे महापुराणे शरत्कुमारसमितायाम् श्रीशिवपुराण श्रीश शरणवतीनाम् विधिनिषेधपुस्तकवक्तुपूजन वर्णनम् नाम सप्तमोऽध्याय समाप्तम् श्रीशिवपुराणमात्म्यम् श्रीगौरी